अथ त्रिचत्वारिंशः सर्गः ततः स किङ्करान् हत्वा हनूमान् ध्यानमास्थितः वनम् भग्नम् मया चैत्यप्रासादो न विनाशितः तस्मात्प्रासादमद्यैवमिमम् विध्वंसयाम्यहम् इति सञ्चिन्त्य हनुमान् मनसादर्शयन् बलम् चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम् आरुरोह हरिः श्रेष्ठो हनूमान्मारुतात्मजः आरुह्यगिरिसङ्काशम् प्रासादम् हरियूथपः बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः सम्प्रधृष्यतु दुर्धर्षश्चैत्यः प्रासादमुन्नतम् हनूमान् प्रज्वलम् लक्ष्म्यापारियात्रोपमोऽभवत् प्रभावान् मारुतात्मजः धृष्टमा स्फोटयामासलङ्काम् शब्देन पूरयन् तस्यास्फोटितशब्देन महता श्रोत्रघातिना पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः अस्रविज्जयताम् रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः दासोऽहम् कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः हनूमान् शत्रुसैन्यानाम् निहन्ता मारुतात्मजः न रावणसहस्रम् मे युद्धे प्रतिबलम् भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः अर्धयित्वा पुरीम् लङ्कामभिवाद्य च मैथिलीम् समर्थार्थोऽगमिष्यामि मिषताम् सर्वरक्षसा एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः अनादभीमनिर्ह्रादो रक्षसाम् जनयन्भयम् तेन नादेन महता चैत्यपाला शतम् ययुः गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् विसृजन्तो महाकायामारुतिम् पर्यवारयन् ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजग्मुर्वाणरश्रेष्ठम् बाणैश्चादित्यसन्निभैः आवर्त इव गङ्गाया यस्य विपुलो महान् परिक्षिप्य हरिश्रेष्ठम् सबभौ रक्षसाङ्गणः ततो वातात्मजः क्रुद्धो भीमरूपम् समाश्रितः प्रासादस्य महांस्तस्य स्तम्भम् हेम परिष्कृतम् उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः ततस्तम् भ्रामयामास शतधारम् महाबलः तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यता दह्यमानम् ततो दृष्ट्वा प्रासादम् हरियूथपः स राक्षसशतम् हत्वा वज्रेणेन्द्र इवासुरान् अन्तरिक्षस्थित श्रीमानिदम् वचनमब्रवीत् मादृशानाम् सहस्राणि विसृष्टानि महात्मनाम् अटन्ति वसुधाम् कृत्स्नाम् वयमन्ये च वानराः दश नागबलाः केचित् केचिद् दश गुणोत्तराः केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः अप्रमेयबलाः केचित्तत्रा संहरियूथपाः ईदृग्विधैस्तु हरिभिर्भृतो दन्तनखायुधैः शतैः शतसहस्रैश्च कोटिभिश्च युतैरपि आगमिष्यति सुग्रीवः सर्वेषाम् वो नेयमस्ति पुरी लङ्का न यूयम् न च रावणः यस्य त्यक्ष्वा कुवीरेण बद्धम् वैरम् महात्मना इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशत् सर्गः